अथाष्टादशः सर्गः तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् विचिन्वतश्च वैदेहीम् किञ्चिच्छेषा निशाभवत् षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् शुश्राव ब्रह्म घोषान् स विरात्रे ब्रह्म रक्षसा बोध्यत महाबाहुर्दशग्रीवो महाबलः बोध्यतु महाभागो राक्षसेन्द्रः प्रतापवान् स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् वृषम् नियुक्तस्तस्याम् च मदनेन मदोत्कटः न तु तम् राक्षसः कामम् नगैर्विधर्जुषा सर्वुष्पलोप्रृता पुष्किणीना पुष्पोपशो सदा मतगैर्चि परुत ईहामृग विवधर वृतािमनोहर वीथी संप्रेक्षाण मणिकाचन तोरण नानामृगणाकीर्णाफलैः प्रपतितैर्वृता अशोकमनिकामेव प्राविशत्सन्ततद्रुमा अङ्गणाः शतमात्रम् तु तम् व्रजन्तमनुव्रजन् महेन्द्रमिव पौलस्त्यम् देवगन्धर्वयोषितः दीपिकाः काञ्चनीः काश्चिज्जगृहस्तत्र बाजनहस्ताल वृंताली चापरा कांचनैृंगारेर्जह्रुस्सलमग्रता मंडलाग्रवृष्चा पृष्ठ ययुराचिद्रत्मयी पात्री पूर्णा पान से राजहंसप्रतीकाशम् छत्रम् पूर्णशशिप्रभम् सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः अनुजग्वः पतिम् वीरम् घनम् विद्युल्लता इव या घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः स्वेदक्लिष्टाङ्गकुसुमाः समाल्याकुलमूर्ध्वजाः प्रयान्तम् नैरऋतपतिम् नार्यो मदिरलोचनाः बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः च कामपराधीनः पतिस्तासाम् महाबलः सीतासक्तमनामन्दो मन्दाञ्चितगतिर्बभौ ततः काञ्चीनि नादम् च नूपुराणाम् च निःस्वनम् शुश्रावपरमस्त्रीणाम् कपिर्मारुतनन्दनः तम् चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् द्वारदेशमनुप्राप्तम् ददर्श हनुमान् कपिः दीपिकाभिरनेकाभिः गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः कामदर्पमदैर्युक्तम् जिह्मताम् रायते क्षणम् समक्षमिव कन्दर्पमवविद्धशरासनम् मथितामृतफेनाभमरजो वस्त्रमुत्तमम् स पुष्पमव करिषन्तम् सक्तमङ्गदे तम् समीपमुपसङ्क्रान्तम् विज्ञातुमुपचक्रमे अवेक्षमाणस्तु तदा ददर्शक विकुञ्जरः रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ताभिः परिवृतो राजा सुरूपाभिर्महायशाः तन्मृगद्विजसङ्घुष्टम् प्रविष्टः प्रमदावनम् क्षीपो विचित्राभरणः शङ्कुकर्णो महाबलः तेन विश्रवसः पुत्रः सदृष्टो राक्षसाधिपः मृतः परमनारीभिस्ताराभिरिव चन्द्रमाः दण्डदर्शमहातेजास्तेजोवन्तम् महाकपिः रावणोऽयम् महा पुरमध्ये गृहोत्तमे अवप्लुतो महातेजा हनूमान्मारुतात्मजः स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत् सतामसितकेषाम् ताम् शुश्रोणीम् संहतस्तनीम् दिदृक्षरसितापाङ्गीमुपावर्तत रावणः त्यादर्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टादशः